मार्कण्डेयपुराणम् अध्यायं 132 एण्ड् तर्टि टु दमचरितवर्णनं मार्कण्डेय उवाच इन्द्रसेनासमाज्ञप्तः सगत्वाशूद्रतापसः समाचष्ट यथापूर्वं दमाय निधनं पितुः समाख्यादे पस पितु क्रोधेनातीवज्वाला हिषेवाग्निधु क्रोधाग्निना धीरे दख्यम महामुने करम करक निष वाक्यमेदुवाच इवमेतादो मयि पुत्रे दु जीवति खादितस्सुनृशंसेन परिभूय कुलं मम तापं करोम्यहं किं वाप्येष क्लैब्यात् क्षमाम्यहं दुर्वृत्तशान्तौ शिष्ठानां पालनेऽधिकृता वयम् चापि निखदम् दृष्ट्वा जीवन्ति शत्रवः तत् किमेतेन बहुनाहातातेति च किं पुनः विलापेनात्र यत्कृत्यं तदेषोऽत्र करोम्यहं यद्यहं तस्य रक्तेन देहोद्धेन वपुष्मतः न तत् प्रवेक्ष्ये तत्रो हुदाशनम् तच्छ्रो नितेनोदगकर्म तस्य मांसेन सम्यग् द्विजभोजनं च कुर्यां पिदुस्तस्य च पिण्डदानं न, न चेत्प्रवेक्ष्यामि हुदाशनं तद् साखायमस्यासुरदेवयक्षगन्धर्वविद्याधरसिद्धशङ्खाः कुर्वन्ति चेत् न पि चास्त्रपूगैर्भस्मीकरोम्येषरुषा समेतः निःशूरमाधार्मिकमप्रशस्तं तं दाक्षिणात्यं समरे निहत्य भोख्ये तदोहं पृथिवीं च कृत्णां वह्निं प्रवेक्ष्याम्यनिहत्यतं वा सुदुर्मदीं तापसवृद्धखादिनं वनस्तगं साधुविधिं विदग्धं हन्ताकमद्याखिलबन्धुमित्रपदादिहस्त्यश्वबलैः समेतं ये शोकमादाय धनुःस खड्गो हृदि तथैवारिबलं समेत्य करोमि वै यत्कथनं समस्ताः पश्यन्तु मे देवगणा समेताः यो यः सहायो भविताद्यतस्य मया समेतस्य रणय भूयः तस्यैव निःशेषकुलक्षयाय समुद्यतोखम् निजबाहुसैन्यः यदि कुलिशकरोऽस्मिन् सयुगे देवराजः पितृपतिरथचोग्रं दण्डमुद्यस्य कोपाद धनपदिवरुणार्का रक्षितुं तं यदन्ते निशितशरवरौखैर्कादियिष्ये तथापि नियतमदिरदोषकाननाखण्डलोका निपतितफलभक्षः सर्वभूतेषु मैत्रः प्रभवति मयि पुत्रे किंसितो येन तातः पिशितरुधिरतृप्तास्तस्य सन्द्वद्य गृध्राः इति दमचरिदे दमचरिते द्वात्रिंशदधिक शततमोऽध्यायः ओ